यत्रासोपश्च दृम्पसि इदं ते अह्नयुज्यम् दुःक्षितम् पश्ये प्रद्रिव ्वर नाहरीन्द्रमपसुवक्षतः अर्वाञ्चन्ध्वरसृजो भूषणम् वृणे महेयुज्यायपुर्वम् सक्रशिक्षगुरुः सलो धिमोचन सन्नः श्रीभुरुजोरिवक्षुदम् रास्व राजोऽपि मोचन वेदन्नस्तु वेदमुस्त्रिजम् वसुजन्तम् हिलोषिपत्यम् एत्वा पूर्णम्ेवे भिस्तोदवाघृ रागा नित्यम् अमर्त्या अस्माकम् पूषन्नता शिवो भवम् राधस्वदा स्थूरं तु रङ्गस्य चिमिष्टिषु राज्ञ स्वेतस्य सुभगस्य रातिषु दुर्वशेष्वमन्महि दीभिः सातानि काण्डस्य वादिनः प्रियमेधैरभिजूहिः साक्षिम् सहस्रानुर्मजामजे निर्जूथानि गवामृषीः वृक्षाश्चिन्मे अभिजित्ते आराणुः गाम्भजन्तमेहनाश्वम् भजन्तमेहना पि वात यमनाः ओ हरिः ओ दूरादिके पयच्छाम नारते न पृथुपादसा ोषधम् विभाभ्याम् राजिवसु प्रदशितो वा अदृशता पात्रम् दूतो यतो पुरप्रजाभूतये पुरुपन्द्रापूरूपसु पुरु पुरु सुवासो अश्विष्ठा वा जातमेषयम् ता बृहस्पती गन्दा रादासुषो गृहम् तासु देवाजादासुषे दे सुमेधामवीकारिणी हृदैर्गव्यो निक्षरम् आनस्तो ममुपद्रवदूजम् शेनेभिराशुभिः जातास्वेभिरश्वि येभिस्तिस्रः परावतो दिवो विश्वाहा निरोचला तोविदाथः सातनम् आनो गोवन्दवशिला सुरथं व्रयुम् गोढमस्वादीर्षाः स्वीयस्वा हिरण्यवर्तनी म् सोम्यम् मधु अस्मभ्यम् बाजिलेवसु मघवद्भश्च प्रथापदाभ्यम् निवब्रह्मजनाञ्जविष्टम् तु जमागतम् मो श्वा अन्यामुपातम् अस्य पीपदमश्विना युगम् मदस्य चारूरः ो राजस्यधिष्ठ्या अस्य आवायम् पुरुक्षम् पुरुशिवान् नैवन्त अरम् कृताः युवासिरा स्माकमद्यवामयम् सोमो वाहिष्ठो अम्बामः भूत्वशिना शोहा वा मधुनो धृत्या हि गोरथदर्शने तदप्यपदमश्वियम्बीवीर्ह ्रहर्विदा अपद्वारे जितो नरा जद्वाम्रथोऽपि विश्वजना सत्याभिरिता जहन्ये श्व दूदीर्दस्य भिलायाभिः यद्वासूहुभे कण्मागतम् मृजमेधमुपसुरम् रात्रिम् सञ्चारिनाथोदगृद्वेदनेयम् शृङ्गोष्वगस्य एतावद्वामृगन्वसुवतो वा भूयो अश्विना कृदन्तः सुन्नमीमहे कथम् हिरण्यबन्धुरम् हिरण्याभीषुमश्विना आहिस्थातोदिभिस्पृशम् हिरण्ययीभाम्रधीदीशाक्षो हिरण्ययाः उभाचक्राहिरण्यया ेनो वाजिनी वसुपरापदश्चिजागतम् सुष्ठुम् मम आवहे से परागात् पूर्वीरस्नन्दवश्विना रिषोदासीरमत्या आ नो आद्युम्नैराश्रव अभिराजमश्विना पुनः चन्द्राणा सत्या प्रजप्स ृप्स गो भुयो वहन्तु वर्णिनाः स्वधनजनम् कथम् पावनुगाय सन् वर्तते स न चक्रमभिधते शरण्यजेन रसेनपाणिभिरश्व सत्या तामे शिवं शृगञ्जां समुद्रो आवृणन् मदुरङ्गो मे हिरण्यसंज्ञोमम् गत अध स्वरायच्छस्य कृष्णजश्चर्मयोजनाः मेयन्ति चेतराः अन्यो नेत्सूर्यो हे भूवत्मरो जनाः महान्द्रोजपूजसामर्जन्यो वृष्टिमानैव सोमैर्वत्सस्य वावृधे ृदस्य विप्रदः प्रगद्भरम् दोह्नयः सा कण्ढा इन्द्रम् यदक्रद स्तोमीर्यज्ञस्य साधरणम् यामि तमस्य मन्यवेपि सो विश्वानमन्दकृष्टयाः समुद्राजेव ुभे समवर्तयत् इन्द्रश्चर्मे रोदसी च रोदतो वज्रेण सतपर्वणा शिरो विभेदवृष्टिनामो विपामग्रेषु धीतयाः अग्ने शोचर्णदिद्युताः ीरूपात्मना प्रयच्छोचम् प्रसीतया अगन्वारया प्रतमिम् गणसी महिरयिम् गोमनम् तमश्विनम् प्रब्रह्म पूर्वचित्तये अहमिधि विदुष्परि मेधामृतस्य जग्रभ अहम् सूर्यलिवाजनि आहं नागिनः स्वम्भामिकम् भवत् तेनेन्द्रे त्वाष्टुवः स्वष्टुवः यजत्समन्युरध्वने द्विसो रुजन् अपः समुद्रमैराजत् इन्द्रथम् न सिंवज्रम् जगन्धरस्य विषाह्यग्रन्वि न जाप इन्द्रमोजसाक्षाणि वज्रिणम् न विव्यचन्द्रभूमायः यस्य इन्द्रमहीरपस्ता भूयमानहास यत् निम् वज्रा सु यजिमे यलिमेज स्वाभृग बोधे चुव मे दुग्रस्रुधिरम् एनादृशीः शूरप्रशस्तिरद्रिवः यज्ञो वीरम् दशा इन्द्रमहीमिषम्पुरन्न दर्शिको मादीम् उदर प्रजाम् सुरीर्यम् उदत्यु प्रदीयत् अविम्रजन्नक्षसम् यदिन्द्रमृगासिनः इन्द्रप्रराजसिक्षिरीः महाङ्गोचसाम्बाहविष्मजीर्विषमुपब्रुवतभूतये समिन्दुभिः उपह्वरे गिरीणाम् संगते च नदीनाम् बिजाविप्रो अजायत अपरसमुद्रमुद्वतश्चि गित्वा आपश्यति यतो विपानये जगति आदितसो ज्योतिष्पस्य रे दिवारीन्द्रे दिवो सविष्ठरुष्यम् इमाम् इन्द्रष्टुतिम् जुषस्वप्रसुमा उद प्रवर्धयाम उद ब्रह्मम् हन्याभयम् तुभ्यम् प्रवद्धवज्रिवः विप्राक्ष्मजीवसे अभिकन्वानुषदा यती इन्द्रम् वनन्वतीमतिः ी वा वृथः समुद्रमीव सिन्धर्वः अनुत्तमन्युमयम् आमोजाहितो हरिभ्याम् हर्यताभ्याम् इममिन्द्रसुतम्बीवृत्रहन्द्रवनादो वृत्तपरिषिषः हमम् देवा चादये अनुद्वारोदसी भुवेतसम् अनूसुवानासैन्दवः मन्द्रस्वासु स्वन्दरभुतेन्द्रसर्जनवति मत्स्वापिवस्वतो मयी वावृधानौ भजिवाहवज्यारोरवीत् वृद्रहासोऽपातमः ैशास्माकम् पासुतामुपरितपृष्ठा अभिप्रजाः शतम् वा इमाम् सुपूर्याम् धियम् मधोर्घृतस्य पिकृषीम् अगन्वामृधुः इन्द्रमिति मही मे दे वृणीवत्याः इन्द्रम् धनुदये अर्वाञ्जन्त्वा पुरस्तु प्रिय मे धत्सु दाहरी सोमवेयायक्षरः शरवीरे सहस्रम् वर्षा वददे राधां सियाद्वा निर्वताम् सहस्रादश्कगोरिष्टाञ्च दुर्युजो दधत् सभसायाद्रं जनम् तय श्रेष्ठभवेरमरुतो अक्षरत् हि पर्वतेषु राजधा जगताभिधीयगोभ्रामृध्वम् निपर्वताः सदुरयन्दवायुशर्वास्रादः कृष्णीमातरः भुक्षन्ता मरुतोमिहम्प्रभे वयन्ति पर्वताय यद्याम यान्ति वायुभिः जामाय वो यन्निसिन्ध भो विधर्मे महे तुष्माजे निले युष्मा उनग्र मोदले युष्मान् जिवा हवामहे युष्मान् राय च ध्वरे उद्धृत्ये अरुणप्सर्वश्चरित्रायामेऽभिलीलते आसाधिष्णिवः ी रश्मिमोजसा पन्थाम् सूर्यायया तवे देवानुभिर्वितस्थिरे इमाम् मे मरुतो गिरमिमम् सोम मृभुक्षणः इमम् मे एव नहवम् श्रीनिशराम् श्रीकृष्णायोधुदुःख्रे वज्रिणे मधु उत्सङ्गद्रिणम् मरुतो यद्धवो दिवः सुम् नायन्तो हवामहे आदो नबुपागन्तना यूयम् हिष्ठासु दानवो रुद्रारुभुक्षणोदमे उदाप्रचेतसोपदे आनो रयिम्वदच्छुकनम् वरुक्षम् विश्वधायसम् यामं यामम् शुभ्राहसि ध्वम् स्वामेध्वजिन्दूभिः एतावदस्ति तेषाम् सुम्नम् भिक्षेदमत्याः अताभ्य श्रमन्माभिः ये द्रप्सायीवरोदसीधमन्त्यनुवृष्टिभिः उत्सम् दुहन्त्व अक्षीतम् ीरथमुद्रधैरुदुवायुभिः उत्सो मयि कृष्णीमातरः एनावदुर्वसंलुञ्लेन कण्नस्पृतम् काले सुतस्य धीमहिमाभूवस्सु दानवो घृदन्न बिभ्युशीलिषाः अर्धा मन्मभिः ृत्तपरिगिडः ब्रह्मा कोपः सपर्यति नयेष्पयद्धवः पुरातो मेभिर्वृत्तपरिगिरः श्रद्धा समुते माहति रपः सं क्षोणि समसूर्यम् सम्भ्रम् म् पर्वसोऽयपर्वताङ्गराजिनः चक्रानावृष्णिपोंस्य अनुत्रतस्य युध्य तः सुष्णा मामन्नुतक्रतुम् अनन्विन्द्रम् भत्रदूर्ये युजग्धस्त अभिद्या वशिप्रा शीर्षम् हिरण्यैः सुभ्राव्यम् जतश्रिये कुशनायत्वरावदवृक्ष्णोरन्ध्रमयातन यौर्मचक्रतद्भिया आनो मखस्य धावने स्वैर्भिरन्यपाणिभिः देवासमुपगन्तन येषाम्बतिरोहीतः यान्ति शुभ्रारिनपः ृशो मे सर्जनाभक्त्यार्जीते पश्चापदि ययुर्निचक्रजानराः कदा गच्छाथमरुदृच्छा विब्रह्मवामानम् मारुमानम् कर्धनोऽनम् काधप्रियो यदिन्द्रमजाहादनात् को वः सखित्ववो हरे वज्रहस्तै कण्वासो अग्निम् मरुद्भिः सुषेरन्यवासीभिः कोढवृष्टप्रज्जूनानम् ज्यसे सुविताय अमृत्याम् चित्रवाजाश्चिन्निगीहसे परुषानासो मन्यमानाः पर्वादाश्चिन्नियेरे नो वहन्तरिक्षेण पततः धाता नस्तु पते अग्निर्हिन्दो न सूरो अच्छुषाः एभानुर्वितश्चिरे आनो विश्वाभिरुचिभिरश्वहिरन्यवर्तनी सोम्यम् मधु नोऽनञ्जातमश्शि नारथेन सूर्यत्वचा भुभीहिरङ्गभेतसा कवी गम्भीरचेतसा आयातम् न होरस्पर्याम् दरिक्षात्सु भक्तिभिः विधो अश्विनामधुकण्वा नाम, नाम सवने सुम् आनो यातम् निरस्पर्याम् दरिक्षादधप्रिया पुत्रः कण्डस्य वाभिह सुषा वा सोम्यम् मधु आनो यातमुपश्रुत्यश्वदये सो स्वाहा सोमस्य वर्धना प्रगाबीधीतिभिर्नरा यच्छिद्धिवाम् पुरृषयोजुहुरेव सेनरा आयातमशिरागतमुपे माम् सुष्ठुतिम् ्रोचनादध्यानो गन्ताम् स्वर्विदा येभिर्वत्स प्रचेतसा स्तो मेभिर्भवन श्रुता किमन्ये पर्यासते श्व सोमेऽभिरश्विना पुत्रः कण्वस्य वामृषिर्गेभिर्वत्सो अविवृधते आवाम् विप्राजिलावसे स्वस्तो मेभिरश्विना अरिप्रावृत्र हन्तपाता नो भूतम् मजोभुवायद्वाञ्जोषारसमतिष्ठद्वाजिनीवसु विश्वान्यश्विना युवम् रतीतान्यगच्छतम् अधः सहस्रनिर्मिलसेनाया तमश्विना वत्सो वाम् मधुमध्वजोसं काव्यः कविः गुरुमन्द्रापूर्वमनोतरा रजीनाम् ओम् मे अश्विना भीममभिमह्नि अनुषाताम् आतो विश्वान्यश्विना धत्तम् राधाम् स्यजा कृतम् न ऋत्यावतो मानो रिरधतम् निदे जन्ना सत्यापरावधि यद्वास्थोऽध्यम्बरे अधः सहस्रनिर्निजातसेनाया तमश्विना यो वाम्ना सत्यावृषर्गेभिर्वत्सो अवीवृधत् तस्मै सहस्रनिर्निशमिषम् धत्तम् कृतश्चुतम् स्मादोजलम् घृतस्तु तमस्वीनागच्छ संयुवाम् दोरोम् सुन्नाय दृष्टवद्वसूयाद्दा नुनस्पती आणो गन्धम् यदा दसेवमम् स्तोमम् पुरुभुरा कृदन्नः शुश्रुयो न रेमादातमभिष्टादे श्वाभिरुधिप्रियमेधाहूषदा राजम् रामधरा नाम स्वीनाजामाहुदिषु आनो गन्धम् वयोभुवा श्वीनासम्भुवायुवम् यो वाम् विपन्यो धीतिभिर्गेर्भिर्वत्सो अयीर्वृहत् चाभिः कण्डम् मेधादिथिम् याभिर्वसन्दसंव्रजम् याभिर्वोसर्यमावतम् नरा याभिर्नराजुमावतम् कृत्वेधने ताभिश्वा अस्माशि नाप्रावतम् वाच सातये भान् सोमान् सुजोगिरो वर्धन्तश्विना पुरत्रावृत्र हन्तपातानो भूतम् पुरुःस्पृहा त्रीणि पदान्यश्विनोः राविस्तान् जिगुहाः परः कमीहृतस्य पद्माभिदर्वा जीवेत् बृहस्पति आलोलमश्विना युवम् वत्सस्य गन्धमवासे ी यच्छदृथम् जानादयः यदन्तरिक्षे यद्दिवि यत्पञ्चमनुशामनुम्णम् दद्धत्तवश्विना एवान् तम् साम् यस्विना विद्रा सत्पदि मामृशो एवेत्कान्वस्य बोधनम् यम् वाम् घर्मो अश्विना स्तोमेन परीषिच्यते अयम् सोमो मधूमान्वाजिनीवसूयेन वृत्रञ्जिके रथः जत्सु यद्वधस्वदौ जोष देशुपुरुदम् ससा कृतम् तेन माविष्टमश्विना सत्याभुरण्यथो यद्वा देवभिरजसाः त्सो मद् धर्मविन्दते हविष्मन्तः सोमञ्चिकेतवामयाः आलोमम् मधुमत्तमम् धर्मम् सिञ्चादधर्वणि आ नूनम् रघुवर्तनिम् रथम् तिष्ठातो अश्विना आपाम् सोमा इमे मम नो न यदद्यवाहाम् नासत्योक्तैराजुस्वीमहि यद्वानीभिरश्विनेवेत्काण्स्य बोधतम् यद्वाम रक्षीवाहाम् उत यद्यद्वाहम् दीर्घता यद्वाहम् वैन्यः सादनेष्वेदेव अश्विना चेदेवथा जातम् छद्दिष्ट्वा उदनः परस्पा भूतम् जगत्वा उदरस्त्वरूपा वर्तिस्तोकायत न जायजातम् यदिन्द्रेण शरथम् जातो अश्विना यद्वा वायुना भवतः समोगसा यदादित्येभिर्विः सजोषसा यद्वा यद्याश्विनावहम् भुवेदमाजसादये यत्प्रत्स दुर्वेदहस्तश्रेष्ठमश्रि नो नूनम् जातमश्रिदेवाहव्यानी वाञ्छिता इमे सोमासो अधि दुर्वसेयदा विवेगन्वेषु पाम यन्ना सत्यापदाके अर्वाके अस्ति भेषजम् येन नूनम् वीमलाय प्रचेतसा वत्सैर्वत्साय यच्छतम् अभत्स प्रदेव्या साकम् माताहमस्योः या मद्देव्या मलिम् मिलातिम् मज्जेभ्यः ो धजोषो अश्विना प्रदेहेऽभि सूणुते महि प्रयज्ञहोतरा नृढः प्रमदायत्रो बृहत् यजोषो याति बालुनामम् रोचते आयमश्विनो रथो भर्त्यनृपायम् यदा पी दातो अंसवो गावो न यद्वा वाणीरनोषतप्रदेहे वयन्तोः अश्विनाः प्रद्युम्नाय प्रसवसेर्याह्याय यन्नो प्रदक्षाय प्रचेतसा यन्नूनम् देभिरश्विना यद्वा नासा यद्वासुम्मेभिरुक्ष्या यत्सो दीर्घप्रसध्वनि यद्वादोरोचरे दिवः यद्वा आ समुद्रे अध्याकृते गृहेत आजा तमश्विना यद्वा आ मनवेशं मन वेसम्मिक्षू रेत्राण्वस्य वे बोधतम् ृहस्पतिम् विश्वान् देवाम् अलम्भोगिन्द्राविष्णोः अश्विना वासुवेशसा चान्वा अश्विना सुवेम् स सा गृभे कृता ययोश्चिप्रणः सख्यम् देवेष्वध्याव्यम् ययोलधिप्रज्ञा सूरे सन्ति सूरयाः स्वधाम्यम् मधुद्यास्विनाभवाजिनीवसु यदृग्यव्यसे यदौ भुवेगतम् क्षेमपुरुभृता यद्वे मे रोचसी अनु यद्वा सदा वीरधिशिक्षदो रताया त्वमग्ने प्रतेष्वा त्वम् यज्ञेश्वरीड्याः त्वमाधिप्रतस्यो विदधेषु सहम् च अग्नेरथीरध्वराणाम् ीरग्ने हराधीयत्सन्त यज्ञम् मत्तस्य रिपोः नोपवेधिजातवेदः मात्रामत्यस्य देभूरिनामनामहे प्रासो जातवेदः ो वसे देवम् मत्पातये अग्निम् हेविर्भवामहे आदे वत्सो मनोरवात्सधस्तात् अग्नेत्वाङ्कामया गिरा पुरुत्रालिङ्गशेविसो विश्वानुप्रभुः समत्सुत्वा भवामहे सेवा जयन्तो हवामहे वादे चित्रराधवम् रत्नोभिकीर्जो दानम् यश्च तत्सी स्वान्द्राग्स्मभ्यम् च सौभगमायज स्वाहा भद्रान्ना अपि वातयनाः ॐ हरिः ओमपा एना तत्री महे ीकम् वेपयन् तम् स्वयम् नरणम् येनाद्रमाभिहे येन सिन्ध्वम् महीरघो रथा ये भृतन्नभूतवद्रिवः ु सद्यभोच वीथ इमञ्जूढस्वगीर्बणः सजीव पिन्वते इन्द्रविश्वाभिरुचिभिर्ववक्षीथो देवः परापत सखि त्वराजवामहे यो न वृष्टिम् प्रसयन् बवक्षीथ अवक्षुरस्य केदव जोगभस्त्योः रोदसि अवर्धयत् यदि प्रवृद्ध तत्पदे सहस्रम् महिषाः आदित्य इन्द्रिय महि प्रवाहवृधे इन्द्रोजस्य रसरसानवो हृदि अग्निर्वने वसा सहि ीयम् धीरिरे दिनवीयसी समर्यन्ती पुनप्रियामितजित् गर्भो यज्ञस्य देवयः कृतम् पुनीतः स वैरेन्द्रस्य वावृदेविनी एतजित् समेत्रस्य पत्रधरेन्द्र सोमस्य वीररे यं विप्राजवाहदन्न आसन् ऋतस्य यत् पुरस्वराजे हरि सोमेन्द्रायी यत् पुरप्रशस्तभूतय ऋदस्य यत् अभिवह्नाय भूतये नो हृत प्रशस्तये ्रहीतश्चेत् यत्सोममिन्द्रविष्णविजद्वा मरत् सुमन्दसे समिन्दुभिः यद्वा सक्रमलापति अधिमन्दसे अस्माकमित्सुवेन्दुभिः मानस्य सत्पते य शरण्य शिवोभिः एवं वो वा स इन्द्रीन्द्रम् गृणेष्वणिय दुर्भेजानु जैग्रवासं ो राभिन्द्रम् वा नसुः मनीगरस्य प्रणीरयः कूर्वीरुतप्रशस्तयः विश्वावसो निसुधेव्यानसोः इन्द्रम् दधिरे पुरः इन्द्रम् वाणीरनुसमुदसे ृतम् अक्रे रो समोजे द्विवे समोजसः द्वे देवा स्वादधिरे पुरः आदिते हर्यरा हरिव वक्षरो जरा वृत्तं देवतावरावज्रन्नवधीः आदिते हरिजरा हरिव वक्षरो जराते विष्णव जात्री जा पदावीचक्रमे आदिते हरिहरा हरिव वक्षरो यदा वे हरिहरा हरिवा ददा ते दिवे दिवे आदिते विश्वाभवनानि वेमिरे यदा ते मारुभ्यमिन्द्र निवे मिरे आदिते विशां देवि शुभ्रां दुरो देव नारः जयिते विशायतिभ्राम्ब्राध्वरे प्रियसानि श्रीलासो अस्वान साम्ब्वरे सुवीर्यम् स्वस्यरे सोमेवानां सुर श्वश्रवस्तभस्तमसुजिते न्द्रम्भराज सुष्टिलम् मे मन्दवत्सृहे इजन्तजीन्द्रगीर्वणो रातिः क्षारजुम्बः रादे मन्दातो अस्य वर्गि गो विराजसि नो नन्तदिन्द्रदधि गो जत्वा शृन्वन्त जन्नश्चित्रमाभरा स्वमिदनम् सोदायत्तेषम् प्रत्नवज्जिरसृथी च ऋतुर्गमम् मदे, मदे जा जा दिवा उतोपदे नाजी नमोर वस्तुभिः सुदेव नरे पश्चिदी प्रदक्षिणा दादुलो गृहणा वस्तुना जानो हेमते स्मेभिप्रभुदत्सुभिः आयाहि यज्ञपातुभिः सनिधे इन्द्रादपिष्टसत्पदे लयम् गृणत्सुधारय श्रवः सूरिभ्यो अमृतम् वस त्वनम् हवे त्वासु रघुदिते हवे मध्यम् दीने न इन्द्रसप्तेभिर्न वा गाहि आदो गहि प्रदुद्रभवत् स्वा सुगोपतः पूर्जम्यं यथा विदे यच्छक्राधिपरापदि यदर्वापति वृत्रहन् यद्वासमुद्रे अन्धतो इन्द्रम् राषुः अविश्यव प्रवत्मभिरुतिभिः इन्द्रम् क्षोणीरवर्धयन्मयायीवदृगेषु चेतनम् देवासो यज्ञमत्र तदविद्वर्धन् सु नो गिरः सदा वृधम् सोदायते अनुव्रदधा दधे सुजग् देशो अद्भुतः मनो यत्रापि बाह्यङ्ग एत विश्वादिद्विषो अदादिम राजा स्तोता भवादिषन्ता राजो गव्ये अस्यैवसौ ददः उदते सुष्ठु दागरीवहतो भगतो दिव्यस्य मदिन्द्र मन्य मीमाहे ष्टुताम् जक्वाम् रत्राभिरुधिभिः वर्ध स्वासपोरुष्टुदर्गष्टुताभिरुधिमवाजनः इन्द्रत्वम् मनोविजम् ध्याजुजानः सोमा भीतये हरि इन्द्र प्रदद्वासो अभिस्वारास्वरन्तु येदव रुद्रास्रियम् उतो भरत्वा देविषो अभिप्रयाः इमास्य प्रदोत्तयः पदञ्जोढम् दयद्दि नाभायज्ञः सन्दधुर्यथाविदे अजम् दीर्घायचक्राजप्रयत्यध्वरे यजमा ऋषद्विचक्षृषादयन्द्रदेव वृषा त्वम् सो वृषा हवाह मोह ृा सोमो अयम् सुतः प्रतिष्ठा